अस्तु तर्हि अस्माकं विषयः अस्ति सन्धि परिचयः इति पुस्तकमस्ति गीताप्रवेशः प्रथमभागः इति अत्र गतसप्ताहे वयं सन्धि इत्युक्ते किम् इति दृष्टवन्तः तदनन्तरं तत्र अक्षरस्य विषये अपि किञ्चित् वयम् अधीतवन्तः तत्र अक्षरमित्युक्ते प्रथमं किम् इति यत् कर्णाभ्यां वयं श्रोतुं शक्नुमः तद् अक्षरम् इति प्रथमम् अक्षरमित्युक्ते किम् दृष्टवन्तः तदनन्तरं स्वरः अयोगवाहः व्यञ्जनम् इत्यस्मिन् विषये अपि किञ्चित् चिन्तनं कृतवन्तः स्वरह नाम यस्य उच्चारणं स्वतन्त्रतया भवितुं शक्नोति इति तादृशवर्णः अस्ति स्वरः तदनन्तरम् अयोगवाहः इत्युक्ते अनुस्वारः विसर्गः जिह्वामूल्यः उपद्मानीयः इति ये माहेश्वरसूत्रेषु नास्ति न परन्तु येषां प्रयोगः भवति इति तादृश वर्णाः अयोः इति तदनन्तरं व्यञ्जनं व्यञ्जनम् इत्युक्ते उच्चारणं न स्वतन्त्रतया न भवति इति व्यञ्जनम् इति अपि अपि च अर्धमात्राकालेन व्यञ्जनस्य प्रयोगः भवति तदनन्तरं हस्वहसि दीर्घः प्लुतः इति विषये अपि किञ्चित् चिन्तनं कृतवन्तः तर्हि इदानीं अग्रे सरेम मा, माहेश्वरसूत्राणि इति विषयः एतावत् पर्यन्तं प्रश्नः अस्ति वा पृष्ठसङ्ख्या अस्ति पञ्च इति भगिनि मेलनम् इति खलु भगिनि मेलनम् इत्युक्ते सन्धि सन्धिः नास्ति खलु सन्धि न तत्र मेलनम् इत्युक्ते केवलं वर्णमेलनम् इत्युक्ते सन्धिः नास्ति यत्र सन्धिः अस्ति चेत् यथा वर्णयोः मध्ये तत्र अतिशयसन्निधिः इत्युक्ते अत्यन्तसामीप्यमस्ति तत्र वर्णस्य विकारः भवति वर्णयोः विकारः भवति तत्र एव सन्धिः इति उच्यते यदा मेलनं भवति तत्र मा योगः इ इति मि भवति तत्र मकारः अपि अस्ति ईकारः अपि अस्ति खलु तत्र किमपि परिवर्तनं न जातम् इति कृत्वा तत्र केवलं वर्णमेलनम् इति एव वदामः किम किम् इत्युक्ते मेलनं संयुक्ताक्षरं तद् अग्रे आगच्छति भगिनि तस्मिन् विषये अग्रे पठेम अस्तु भगिनि तर्हि इदानीम् अग्रे सरेम माहेश्वर माहेश्वरसूत्राणि इति विषयः अस्तु तर्हि रामनाथन् महोदय भवान् आरम्भं करोति वा आं भगिनि माहेश्वरसूत्राणि इदानीमेव न आं सत्यंसूत्राणि पाणिनः भगवतः एतत् क्षम्यता महोदय पाणिनिः पाणिनिः भगवतः ईश्वरस्य अनुगृहात् व्याकरणम् अरचयत् ऐ तव, कपै शषसत् हल् एतानि माटेश्वरसूत्राणि इति प्रसि प्रसिद्धानि एतानि चतुर्दशसूत्राणि माटेश्वरात् आगतानि इति वैयाकरणानां मतं क्षम्यता महोदय अत्र पुनः तद् वाक्यं पठतु किञ्चित् एतानि माटेश्वरसूत्राणि इति निर्दशसूत्राणि न क्षम्यतां तत् पदं पुनः किञ्चित् सम्यक्तया पठतु न न तत् एतत् पदमिदानीम् अन्तिमपदम् यद् उक्तवान् तत् एतानि चतुर्दशसूत्राणि न तत्र माहेश्वरात् इति अस्ति वा इति मतं तावत् पर्याप्तं तावत् पर्याप्तं हा तत्र इदानीं यत् भवान् अवगतवान् तत् किञ्चित् वक्तुं शक्नोति वा पाणिनि नाम भगवतः ईश्वरस्य अनुग्रहात् एव चतुर्दशसूत्राणि रचयते हा सत्यम् इत्युक्ते तत्र कथा अस्ति यथा महर्षिपाणिनिः तत्र व्याकरणं रचयितुं प्रभृतः आसीत् तस्मिन् समये महेश्वरः तस्य पुरतः आगत्य नृत्यं कृतवान् तर्हि तस्य डमरुतः यः ध्वनिः उत्पन्नः तेन आधारेण तत्रैव तत् माहेश्वर तत्र सूत्राणि चतुर्दशसूत्राणि आगतानि माहेश्वरात् आगतानि इति कृत्वा माहेश्वरसूत्राणि इति तस्य नाम इदानीं तर्हि अत्र अस्ति चतुर्दश चतुर्दशसूत्रा चतुर्दशसूत्राणि खलु नमस्ते भगिनि तत्र ऐ उन् ऋक् एवम् ऐच् इति इत्यावत् अत्र पश्यामः चेत् अत्र यद् अन्तिमवर्णः अस्ति प्रत्येकस्मिन् सूत्रे ऐ हा सत्यम् इप्संज्ञा नाम किम् इति वक्तुं शक्नोति वा महोदय इप्संज्ञा अर्थात् अन्तिमवर्णात् प्रत्येकं सूत्रे अन्तिमवर्णः लोपः पह भवति हा इत्युक्ते तत्र ऐ उन्नम् उच्चारणार्थमेव प्रयोगं नास्ति सत्यम् तत्र ऐ उन् इत्यत्र इदानीम् अण् इति वदामः चेत् तत्र अ इ उ इति स्वराः अन्तर्भूताः इति एतस्य प्रयोगः साधारणतया तत्र व्याकरणे इति अष्टाध्यायी इति यत् पुस्तकं रचितवान् पाणिनिमहर्षिः तस्मिन् एतस्य प्रयोगः वयं पश्यामः तत्र सूत्रम् अतिलघु भवति खलु तर्हि तत्र यदा तत्र अयि उ इति स्वरा इति तत्र यः त्रयः स्व स्वराः सन्ति तेषां कृते किमपि वक्तव्यं चेत् तत्र इत्युक्ते अय उन् इति स्वराः तादृशं भवति इति वक्तव्यं चेत् तत्र अ इ उ इति अपेक्षया अण् इति वदामः चेत् तत्र सूत्रमपि लघु भवति तत्र सौलभ्यमपि लाघवमपि अस्ति खलु इत्युक्ते लघु भवति इति कृत्वा तादृशं रचितवान् इत् एतस्मिन् विषये इतोपि अग्रे पश्येम एतावत्पर्यन्तं स्पष्टमस्ति वा प्रश्नः अस्ति वा अस्तु सम्यक् तर्हि अग्रे हरिहरन् महोदय भवान् पठति वा नमस्कारः हरिहरन् महोदय अस्ति अस्तु भानुचैतन्य महोदय भवान् पठितुं शक्नोति वा श्रूयते वा मम धुनिः श्रूयते अस्तु तर्हि आना भगिनी भवती पठति वा अहं पठामि किन्तु हा हा चिन्ता नास्ति भगिनि शनैः पठतु एतेषु सूत्रेषु हय हयवारप्रभृतयः वर्णः सन्ति वर्णाः सन्ति वर्णाः सन्ति ह करादिषु आ करः कारः उच्चारण उच्चारणार्थः तेन हयवर ह ह येतसाम् ग्रहणं भवति तावत् पर्याप्तं भगिनि अस्तु सूत्र इत्युक्ते रु सूत्रमित्युक्ते यत् उपरि अस्ति खलु अयि उन् ऋलक् एव तत्र सूत्रमित्युक्ते साधारणतया अफोर्सम् इति अस्ति खलु तदेव सूत्रमिति वदामः यत् लघु अस्ति अपि च तस्मिन् कश्चन नियमः उक्तः इति तादृशम् अहं किञ्चित् न जानामि न चिन्ता चिन्ता नास्ति भगिनि अग्रे एतावत्पर्यन्तं वयं सूत्रं न दृष्टवन्तः वस्तुतः माहेश्वरसूत्राणि एव अस्माकम् इदानीं प्रथमपरिचयः सूत्रविषये तर्हि अग्रे इतोपि अधिकं तत्र अष्टाध्यायीतः अपि पश्येम निश्चयेन अस्तु एतत् हा हा अत्र सूत्रं पश्यतु तत्र पञ्चम सूत्रं किम पञ्चमं सूत्रं हयवार हयवरट् इति अस्ति खलु तर्हि अत्र पश्यामः चेत् तत्र तात् तावत्पर्यन्तम् इत्युक्ते अय उन् ऋ लक् एवम् ऐ यौच् इति वस्तुतः स्वराः खलु तर्हि अत्र पूर्वं वयं किं दृष्टवन्तः स्वराः इत्युक्ते तेषां स्वतंत्रतया उच्चारणं भवति तर्हि अत्र अ इ उ र, ल, ए ओ ऐ औ इति तस्य उच्चारणं स्वतंत्रतया भवति परन्तु पञ्चमसूत्रात् आरभ्य यत्र हयवरट् इति अस्ति तत्र ह इति अस्ति तत्तु वयं दृष्टवन्तः खलु गतकक्षायां तत्र ह इति व्यञ्जनम् अस्ति mm -hmm. इति कृत्वा तस्य उच्चारणं स्वतन्त्रतया न भवति तर्हि तत्र वस्तुतः हकारस्य अनन्तरं तत्र अकारः अस्ति खलु एन ह mm -hmm. इति आगतः mm -hmm. तत्र इत्युक्ते हकारस्य अनन्तरं तत्र हकारस्य अधोभागे तत्र रेखा नास्ति इति अवगच्छति वा भगिनि इत्युक्ते यद्भवती पठितवती तत्रैव पश्यतु तृतीयं वाक्यं इत्यनेन हकारः यकारः वकारः रकारः रेपः इत्येषां वर्णानां ग्रहणं भवति इति अस्ति यत्र तथा अस्ति हकारः यकारः इति तत्र हकारस्य अधोभागे रेखा अस्ति पश्यति वा इत्युक्ते तत्र एकं लैन् अस्ति खलु येन वयं ज्ञातुं शक्नुमः तत्र तत् शुद्धव्यञ्जनं तस्य अनन्तरं स्वरः नास्ति इति भेदः mm -hmm. अस्ति खलु तत्र हयवरट् इति सूत्रे यह हकारः अस्ति अपि च यद्वाक्यम् इदानीं मया पठितं तत्र यः हकारः अस्ति तयोः मध्ये भेदः दृश्यते खलु अदो भागे एका रेखा अस्ति सत्यं mm -hmm. यत्र रेखा अस्ति तत्र स्वरः नास्ति केवलं व्यञ्जनमस्ति यत्र रेखा नास्ति तत्र वस्तुतः हकारस्य अनन्तरम् अकारः अस्ति खलु येन वयम् उच्चारयितुं शक्नुमः ह इति तर्हि सूत्रे पश्यामः चेत् सर्वेषु व्यञ्जनेषु हयवरट् हयवरट् प्रभृतयः इत्युक्ते हयवरट् आरभ्य इति आदिः इति हयवरट् आरभ्य अन्तिमसूत्रं किम् अस्ति हल् हा हल् पर्यन्तं ये स्वरा क्षम्यतानि यानि व्यञ्जनानि सन्ति तेषां तत्र अकारः अस्ति सत्यं इति कृत्वा वयं तत् पठितुं शक्नुमः उच्चारयितुं शक्नुमः नो चेत् तत्र ह्य द्व इति एव वक्तुं शक्नुमः खलु तर्हि तत्र उच्चारणे क्लेशः अस्ति इदानीं हयवरट् इति वक्तुं शक्नुमः यतोहि हकारस्य अनन्तरम् अकारः अस्ति तद्वत् लण्ड् इति अकारः अस्ति इति कृत्वा वयम् उच्चारयितुं शक्नुमः परन्तु एदा हयवेरट् तत्र हल इति अस्ति चेत् तत्र येन हल् इत्यस्मिन् सर्वे सर्वाणि व्यञ्जनानि अन्तर्भूतानि तत् अग्रे आगच्छति पठेम परन्तु एदा हल् इति वदामः चेत् तत्र केवलं व्यञ्जनमेव अकारः तत्र न अन्तर्भूतः वस्तुतः यः अकारः अस्ति तत् केवलम् उच्चारणार्थम् इति अस्ति अत्र अस्तु सर्वे अवगतवन्तः इति चिन्तयामि आगच्छामि किन्तु किं न जानामि न जानामि सूत्रमित्युक्ते तत्र नियमः इति चिन्तयतु इदानीं तर्हि अग्रे सरेम अग्रे अस्तु मुकुन्द महोदय भवान् पठति वा प्रत्याहारः न महोदय तत्र अन्तिमवाक्यमस्ति खलु तत्र अपि च अधोभागे यत् अस्ति तदपि पठतु महोदय अधो एकक्षणं क्षम्यताम् अधोभागे तत्र सङ्ख्या अस्ति खलु एकम् इति तत्र अधोभागे पुष्प तस्मिन् पुटे अधोभागे न विद्यते योगः इति अस्ति खलु तदपि पठ क्षम्यताम् न विद्यते योगः माहेश्वरसूत्रेषु येषां ते अयोगाः योगः सम्बन्धः वहन्तीति वाहः प्रयोहं वहन्तीति वा क्षम्यताम् प्रत्योगं निर्वहन्तीत्यर्थः महोदय क्षम्यतां पुनः पठतु तद्वाक्यं प्रयोगं निर्वहन्ति अयोगाश्च ते वाहाश्च अयोगवाहाः अग्रे पठामि वा न ए एतावत् पर्यन्तं यद् अवगतं तत् किञ्चित् वदतु स्वस्य शब्दैः वदति वा महोदय यत् अवगतम् तत्र प्रथमं किमस्ति अयोगवाहाः तु माहेश्वरसूत्रेषु न अन्तर्भूताः इति इत्युक्ते किम् प्रथमम् अयोगवाहाः इत्यस्मिन् अयोगवाहाः इत्युक्ते किं तस्मिन् के के अन्तर्भूताः पूर्वस्मिन् पुटे पश्यतु अयोहवाहः इति अस्ति खलु तत्र किम् अस्ति अनुस्वारः इति एकं विसर्गः जिह्वामूल्यः अपि च उपद्मानीयः इति तर्हि ये अयोहवाहाः इति उच्यते अस्तु इदानीं यद् माहेश्वरसूत्राणि वयं दृष्टानि यानि सूत्राणि एतावत् पर्यन्तं दृष्टानि तत् चतुर्दशसूत्राणि इति रामनाथमहोदयेन पठितं खलु पठितानि तस्मिन् तेषु तत्र अनुस्वारः दृश्यते वा निसर्गः दृश्यते वा जिह्वामूलीयः अपि नास्ति उपद्मानीयः अपि नास्ति आम् खलु तर्हि तदेव अत्र अस्ति अयोगवाहाः तु माहेश्वरसूत्रेषु न न अन्तर्भूताः इत्युक्ते माहेश्वरसूत्रेषु नास्ति अयोगवाहः अथवा अयोगवाहाः न सन्ति इति अस्तु hmm? इदानीं न विद्यते योगः माहेश्वरसूत्रेषु ते अयोगाः योगः इत्युक्ते सम्बन्धः तत्र येषां माहेश्वरसूत्रेषु सम्बन्धः नास्ति ते अयोगः अयोगाः इति अयोगः इति एकवचने अयोगाः इति बहुवचने योगः इत्युक्ते सम्बन्धः तर्हि ते अयो माहेश्वरसूत्रेषु न सन्ति परन्तु तस्य प्रयोगः स अस्ति खलु प्रयोगः क्रियते विसर्गस्य प्रयोगः अस्ति परन्तु माहेश्वरसूत्रे विसर्गः हा नास्ति प्रयोगः अस्ति इति कृत्वा वहति वहति इत्युक्ते प्रयोगः भवति इत्यस्मिन् अर्थे अत्र वहति इति तर्हि वहति इत्यस्मात् वाहः इति उच्यते तर्हि येषां माकेश्वरसूत्रेषु यस्य सम्बन्धः atavā योगः नास्ति parantu यस्य प्रयोगः bhavati saha अयोगवाहः ते अयोग वा अयोगवाहाः इति अस्तु अवगतं वा अस्तु सम्यक् तर्हि अग्रे लक्ष्मीभगिनी एतेषु चतुर्दशसु माहेश्वरसूत्रेषु अपि स्वररहितम् एकैकं व्यञ्जनम् अन्ते श्रूयते तेन सह उच्चार्यमाणः आदिमः वर्णः मध्ये वर्तमानानां वर्णानां स्वस्य च बोधकः भवति यथा आयवुण् इति सूत्रस्थस्य इकार इकारस्य रुल्रुक् इति सूत्रस्थेन अन्तिमव्यञ्जनेन ककारेण सह उच्चारणे इक् इति शब्दः निष्पद्यते तेन इवु रुल् इति वर्णाः उपस्थिताः भवन्ति एवम् उपसंहृत्य व्यवहृतः शब्दः प्रत्याहारः इति व्याकरणे प्रथितः तावत्पर्यन्तं अत्र प्रत्याहारः इत्युक्ते किम् इति एते दत्तम् एतेषु एकमेकं एकम वाक्यं स्वीकृत्य भगिनि सम्यक् भगिनि एतेषु चतुर्दशसु माहेश्वरसूत्रेषु अपि स्वरहितम् एकैकं व्यञ्जनम् अन्ते श्रूयते अत्र चतुर्दशसूत्राणि सन्ति माहेश्वराणि सूत्राणि अत्र आयवुण् इति सूत्रं स्वीकुर्मः चेत् प्र अन्त्य अन्तिमवर्णः मूर्धन्यर्णकारः मूर्धन्यर्णकारः अन्तिमव्यञ्जनम् इत्युक्ते अत्र एकैकं सूत्रस्य अन्तिम अन्ते एकं व्यञ्जनमस्ति व्यञ्जनमित्युक्ते अर्थमात्राकालेन उच्चार्यमाणः अक्षरम् वर्णः तथा एकैक एक, एकैकं एक, एक सूत्रस्य अन्ते एकं व्यञ्जनं श्रूयते अत्र प्रथमसूत्रे णाकारः अस्ति तेन सह उच्चार्यमाणः आदिमः वर्णः मध्ये वर्तमानानां वर्णानां स्वस्य च बोधकः भवति इत्युक्ते Uh, यदि अण् इति वदामश्चेत् अण् एकः प्रत्याहारः अनन्तरम् अण् अन इति प्रत्याहारे आयः स्वराः सन्ति अनन्तरम् अण् इति प्रत्याहारे इकारः अपि अस्ति यदि इकारात् आरभ्य ूत्रे द्वितीयसूत्रमस्ति रुल् रुक् इकारम् इकारात् आरभ्य द्वितीयसूत्रात् अन्तपर्यन्तं गत्वा वदामश्चेत् इक् इति वक्तुं शक्नुमः इक् इत्यस्मिन् प्रत्याहारे इल् रु इति चत्वारी वर्णानि सन्ति अत्र प्रत्याहारः इति इत्युक्ते किम् इति दत्तमस्ति तथा इक् इति प्रत्याहारः आगच्छति इक् प्रत्याहारे इदेव रू। धन्यवादः hmm. अ तत्र यथा भगिनी उक्तवती तत्र अयि उण् इति इदानीं पश्यामः चेत् तत्र अन्ते णकारः अस्ति खलु नकारस्य इदानीम् अनन्तरं स्वरः नास्ति इत्युक्ते इण् इति वदामः ण तु ण इति यतोहि तत्र स्वरः नास्ति तत्र केवलव्यञ्जनमस्ति तर्हि अण् इति यदा वदामः अत्र अ इ उ इति तत्र अनित्यनेन इत्यनेन इति सूचितम्。यदा अण् इति वदामः चेत् तत्र अ इति अपि अन्तर्भूत् अन्तर्भूतः इति ते ये स्वराः अपि अन्तर्भूताः इति वयम् अवगन्तुं शक्नुमः तद्वत् इदानीम् अक् इति वदामः चेत् तत्र Uh, uh, मेहुल् महोदय भवान् वदति वा तत्र अक् इति वदामः चेत् तत्र के के वर्णाः अन्तर्भूताः आम इति आम् अक् इति वदामः चेत् तत्र प्रथममपि द्वितीयं सूत्रमस्ति अ इ ऊण् अक् अ इति वर्णस्य अनन्तरम् इ उत्तरं रुल् रुक् इति वर्णः सन्ति अतः अ इ उल् इति इति प्रत्यहारे सन्ति अति उत्तमं तर्हि यदा इदानीम् अक् इति वदामः चेत् तत्र न इत्यस्य गणनम् न भवति यद् अन्तिमवर्णः अस्ति तत् तस्य लोपः इत्युक्ते तद् गच्छति अपगच्छति इति तस्य गणनं न भवति इति वयं वक्तुं शक्नुमः तर्हि अक् इति वदामः चेत् तत्र अ इ उल् इतिषां गणनं भवति तद्वत् इदानीं धर्मेन्द्रमहोदय भवान् वदति वा अच् इति वदामः चेत् अच् इत्यस्मिन् प्रत्याहारे के के वर्णाः सन्ति धर्मेन्द्रमहोदय किञ्चित् क्लिष्टः इति इदानीं यथा यथा मेहुल् महोदयेन उक्तं खलु तत्र अच् इति अकारः कुत्र अस्ति प्रथमसूत्रे अकारः अस्ति सत्यम् अच् इत्यत्र च इति श्रूयते खलु च इति कस्य अन्तिम Uh, uh, कस्य सूत्रस्य अन्तिमवर्णः अस्ति चतुर्थसूत्रं हा चतुर्थसूत्रं तर्हि ऐ औचति तर्हि अच् इति प्रथमसूत्रस्य प्रथमसदस्यः अ इति तस्मात् आरभ्य चतुर्थसूत्रं पर्यन्तं गच्छति इदानीं वदतु तत्र के वर्णाः अन्तर्भूताः इति अच् इत्यस्मिन् अच्छ तस्मिन् अ इ उप उत्तमम् इदानीम् एतत् वदतु अच् इत्यस्मिन् अच् विहाय अन्ये अन्ये सूत्रेषु अन्येषु सूत्रेषु स्वराः सन्ति नास्ति खलु तदनन्तरं व्यञ्जनमेव तर्हि इदानीं पश्यतु अष्टाध्याय्यां यदा महर्षिपाणिनिः स्वरस्य विषये वक्तुम् इच्छति सः अच् इति प्रत्याहारस्य उपयोगं करोति अच् इति वदति तत्र अ इ ऊ लृ इति प्रत्येकं स्वरस्य प्रयोगः न भवति अथवा स्वरः इत्यपि न वदति अच् इति वदति चेत् वयम् अवगन्तुं शक्नुमः सर्वे स्वराः अन्तर्भूताः इति तर्हि के तेन लाघवमस्ति लघु भवति अच् इति वदामः चेत् तत्र अ इति एकः वर्णः च इति एकं व्यञ्जनं तेन वयम् अवगन्तुं शक्नुमः सर्वे स्वराः इति सम्यक् तर्हि इदानीं कः वदति पुष्पाभगिनी हल् इत्युक्ते किम इति वदति वा तत्र के के वर्णाः अन्तर्भूताः इति हल् इत्युक्ते सर्वे व्यञ्जनानि सन्ति तत्तु ह य वर लमन यम यब दठ त कफ श ह इति इत्युक्ते पञ्चम सूत्रे महेश्वरसू सूत्रे आदिमर्टिङ्ग् प्रथमं लकारः चतुर्दश महेश्वरसूत्रस्य लकारः पर्यन्तं सर्वे अक्षराः सन्ति ऐ डोन् एक्सेप्ट् किं करो वदामि अन्तिम व्यञ्जनान् त्यक्त्वा तत्तु ट सर्वे अस्तु बहु सम्यक् भगिनि तर्हि इदानीं तत्र पश्यतु हल् इति तत्र हयवारट् इत्यस्मिन् प्रथमवर्णः ह अस्ति खलु अपि ल इति अन्तिमवर्णस्य अन्तिमसूत्रस्य अन्तिमवर्णः अस्ति ल इति तर्हि यदा हल् इति वदामः तत्र पञ्चमसूत्रात् आरभ्य गच्छति यथा पूर्वम् उक्तम् अन्तिमव्यञ्जनं यदस्ति तस्य गणनं नाभवति. भवति यद् स्वररहितं व्यञ्जनम् इत्युक्ते स्वरेण सह यद्व्यञ्जनं नास्ति तस्य गणनं न भवति इति कृत्वा यथा पुष्पाभगिनी इदानीम् उक्तवती तत्र ह यवर ल्यमङ्गणन जभ इति इत्येव गच्छति हल् हल् इत्यस्मिन् ह पर्यन्तं तर्हि सर्वाणि व्यञ्जनानि अन्तर्भूतानि तस्मिन् हल् इति प्रत्याहारे स्पष्टं वा अस्तु अग्रे इतोपि एकं किञ्चित् कुर्मः इदानीं गीताकुमारभगिनी भवती वदति वा तत्र जश् इति वदामः चेत् केके के वर्णाः अन्तर्भूताः इति आं भगिनिश् जष इत्युक्ते जकार आदिमवर्णकार शिवाश्र न अन्तिमवर्ण सो झ झ भ घ एव एतानि वर्णानि सन्ति सत्यम् इत्युक्ते दशमसूत्रं पश्यामः चेत् तत्र ज इति प्रथमसूत्र प्रथमवर्णः ष इति जष् इत्युक्ते जबगडद इदानीं पश्यतु जबगडद इत्यनेन वर्गीयव्यञ्जनेषु तृतीयसदस्यः खलु इति वयं ज्ञातुं शक्नुमः इदानीं जष् कथनेन प्रत्येकस्मिन् वर्गे यः तृतीयसदस्यः अस्ति तेषां गणनं भवति अस्तु इद इदानीं रामनाथमहोदय भवान् वदति वा तत्र इदानीम् इक् इति वदामः चेत् इक् तत्र इदामः स्वरः तु तेषाम् इकारः इत्यपि सम्यक् इ्यक् द्वयमपि वक्तुं शक्नुमः यतोहि स्वरस्य तु रु भवति अत्र पश्यतु वैशिष्ट्यं एतावत्पर्यन्तं वयं किं दृष्टवन्तः यदा अच् इति वदामः अथवा जश् इति वदामः तत्र यः वर्णः प्रथमम् उक्तं तत् सूत्रस्य प्रथमवर्णः आसीत् खलु अच् इति यनेन अकारः प्रथम सूत्रस्य प्रथमसदस्यः आसीत् तद्वत् जष् इत्यत्र दशमसूत्रं ज इत्यस्मात् एव तस्य आरम्भम् अभवत् तद्वत् हल् इति वदामः चेत् ह इति पञ्चमसूत्रस्य प्रथमसदस्यः आसीत् परन्तु इदानीम् इक् इति वदामः तत्र इ प्रथमसदस्यः नास्ति तत्र अ इ उ इत्यत्र इ मध्ये अस्ति परन्तु यदा इक् इति वदामः चेत् आरभ्य क पर्यन्तम् इत्युक्ते इ उ रुल् इति स्वराः अन्तर्भूताः इति भवति स्पष्टम् उत्तमं तर्हि इदानीं भानुचैतन्यमहोदय अस्ति वा अस्तु मुकुन् महोदय भवान् तत्र खर् इत्युक्ते किम् इति वदति द्वादशसूत्रसूत्रात् आरभ्य न खर् न तु कर् खर् कर कर् खर् खर् वा लर् खर, वा खर् हा खर् अस्तु हा आरभ्य इति अस्तु इति आगच्छति खलु तर्हि गतकक्षायां यदा वयं व्यञ्जनविषये पठितवन्तः तत्र कर्कशव्यञ्जनानि इति वयं दृष्टवन्तः तर्हि इदानीं खर् इति वदामः चेत् तत्र कर्कषव्यञ्जनानां ग्रहणं भवति खर् इति वदनेन सम्यक् इदानीम् अना भगिनि भवती तत्र हश् इत्युक्ते किम् इति वक्तुं शक्नोति वा प्रयत्नं करोतु भगिनि हश् हस् हकारमसूत्रे हस् शकरन्ता दशमसूत्रे तदनन्तरं ह या वा इत्यस्य गणनं न भवति खलु तर्हि हायवार अत्र पश्यतु भवती सम्यक् उक्तवती तत्र पञ्चमसूत्रे ह इति प्रथमम् अस्ति दशमसूत्रे ष इति अस्ति तर्हि हायवार तदनन्तरं मध्ये ये सन्ति तेषामपि ग्रहणं भवति खलु तर्हि वदतु इदानीं सर्वे हा तत्र ज्ञ इति तत्र किञ्चित् जानाति ख ख ग जानामि अग्रे वदतु अष्टम अष्टमसूत्रे प्रथमाकार न जानामि सम्यक् तावदेव तर्हि हयवर्या न जभगढद जभगढद इति यत् मृदुव्यञ्जनानि वयम् अती अतीतानि गतसप्ताहे तस्य गणनं भवति हश् इति कथनेन तर्हि इदानीं अग्रिमपुटे एतत् सर्वं दत्तमस्ति एत यत् यस्य अभ्यासः इदानीं वयं यस्य यस्य अभ्यासः अस्माभिः इदानीं कृतः तत्र पुनः दत्तमस्ति एकवारं गृहपाठत्वेन तत् पश्यन्तु कृपया इतोपि किञ्चित् परिचयः भवति भगिनि तालव्यं वर्गे सूचयति तालव्य दन्त न न तत्तु तत्र हा तत्र उच्चारणस्थानम् अनु अनुगुणं भवति खलु न भगिनि न भगिनि तत्र तालव्यकर्कषव्यञ्जने अपि भवति मृदुव्यञ्जने अपि भवति यतोहि तत्र इदानीं तथ द इति दन्त्यवर्णाः खलु तत्र त थ इति कर्कषव्यञ्जनं द ध इति अहं जानामि वर्गे पाठयति पा ये सर्वे कालव्यं प्रनौन्सियेषन् किं तत्र प्रायः लक्ष्मीभगिनी पाठयति इति चिन्तयामि तत्र, तत्र मङ्गलवासरकक्षे कक्षासु अस्तु अस्तु तर्हि अग्रे सरेम मा, तत्र माहेश्वर माहेश्वरसूत्राणि इति यत् यः विषयः इदानीं वयं दृष्टवन्तः तत्र सर्वेषां किञ्चित् स्पष्टता जाता इति मन्ये प्रश्नः अस्ति चेत् पृच्छतु अपि च किञ्चित् गृहपाठत्वेन एकवारं पश्यतु येन पुनः पुनः अवलोकनेन किञ्चित् परिचयः अपि भवति अवगमनमपि इतोपि किञ्चित् अधिकं भवति अस्तु तर्हि अग्रे भगिनि किं किं गृहपाठं हा तत् ई पत्रे प्रेषयिष्यामि महोदय परीक्षा अस्ति वा हा परीक्षा नास्ति केवलम् अस्माकं पठनमेव अत्र भवति अस्तु अग्रे धर्मेन्द्रमहोदय भवान् पठति वा तत्र प्रत्याहारेषु विषयद्वयं विषयद्वयं ज्ञातव्यं ज्ञातव्यम् इत्यस्मिन् प्रत्याहार प्रत्याहारेषु विषयद्वयं ज्ञातव्यं प्रथमं सूत्राणाम् अन्ते विद्यमानानां स्वररहितानां गञ्जनानां ग्रहणं न भवति तेषाम् इत् इति संज्ञा भवति इत्सञ्ज्ञकस्य लोपः भवति <coughs> यथा अत्र न एतावत्पर्यन्तं यत् पठितं तस् तस्मिन् विषये किञ्चित् वदतु महोदय अन्ते विद्यमानानां स्वरहितानां व्यञ्जनानां ग्रहणं न भवति इत्युक्ते प्रथमं सूत्रम् इत्युक्ते किम् एतानि सर्वेषु सर्वे सूत्राणि सत्यम् इति ऐ उन् रु लुक् इति आरभ्य हल्पर्यन्तं यद्वयं दृष्टवन्तः ये दृष्टवन्तः तानि एव सूत्राणि इति खलु तत्र तत्र ऐ उण् इत्यत्र इति सूत्रं स्वीकुर्मः चेत् तत्र अन्तिमवर्णः कः न ऐ उन् इत्यत्र त, इदानीं तद् मास्तु ऐ उन् इत्यत्र अन्तिमवर्णः कः न इदानीम् अन्ते न अस्ति खलु इत्यत्र स्वरः अस्ति वा तदेव स्वररहितः इत्युक्ते स्वर स्वरं विहाय स्वरं नास्ति इति रहितः इत्युक्ते तत्र नास्ति इति तर्हि स्वरं विना नकारः अस्ति खलु अत्र तत्र तादृशव्यञ्जनस्य यथा ऐ उण् ना okay. <laughs> <इत्या था। laughs> <उत्या था। laughs> न अस्ति तस्य ग्रहणं न भवति इति यद्वयम् इदानीं दृष्टवन्तः तदेव यदा अण् इति वदामः चेत् तत्र अ इ उ इत्यस्य एव इत्येषामेव ग्रहणं भवति न नकारस्य इति तत्र किम् अस्ति इत्युक्ते यत् पूर्वं रामनाथमहोदयेन अपि उक्तं इत्यस्य इत् संज्ञा इति व्याकरणे उच्यते इत् इति कश्चन संज्ञा अस्ति संज्ञा नाम नामकरणम् इति न इत्यस्य नाम अस्ति इत्संज्ञा इत् इति इत् इति संज्ञा अस्ति तस्य यस्य इत् इति संज्ञा भवति तस्य लोपः लोपः नाम तद अपगच्छति तस्य गणनं न भवति तर्हि अण् इत्यत्र ना इत्यस्य इत्संज्ञा अस्ति खलु तर्हि तस्य गणनं न कुर्मः अण् इति वदामः चेत् केवलम् अ इती एव न ना नास्ति अत्र इति सूचनार्थमेव तत्र व्याकरणे नामकरणमस्ति इत् इति संज्ञा इति तावदेव अस्तु <laughs> <हुँ? laughs> अत्र अग्रे मेहुल् महोदय भवान् पठति वा तत्र यथा इति उदाहरणं यद् दत्तम् अस्ति अत्र आम् यथा अक् अत्र अ इ उ ऋ इत्येतेषां वर्णानां ग्रहणं भवति न तु अणकार ककारयोः ग्रहणम् अग्रे पठामः न न तत् वदतु महोदय किञ्चित् अस्तु अत्र एक एकः उदाहरणं दत्तमस्ति अक् इति प्रत्याहारे अ इ उ इति वर्णानां ग्रहणं भवति तत्र अक् इति पश्येम चेत् अकार प्रथमसूत्रस्य प्रथमवर्णः अकारः अस्ति अनन्तरं द्वितीयसूत्रस्य अन्तिमवर्णः ककारः अस्ति तत्र वयं दृष्टवन्तः यथा यथा सूत्रस्य अन्तिम वर, अन्तिमवर्णः यक्त्वा अन्य सर्वे वर्णानां प्रत्याहारे अन्तर्भूताः सन्ति अतः अत्र अ इ उ एतेषां प्रथमसूत्रे सूत्रेषाम् अस्ति सन्ति अनन्तरं सूत्रे रुकार रु, रु। इति द्वयोः वर्णो वर्णयोः स्तः अतः अक् इति उदाहरणे अ इ उ रु अनन्तरं लृ इत्य इति वर्णानां वयं वक्तुं शक्नुमः तत्र प्रथमसूत्रस्य अन्तिमवर्णः णकारः अपि च द्वितीयसूत्रस्य अन्तिमवर्णः ककारः वयं न ग्रहणं कर्तुं शक्नु शक्नुमः अतः अ इ ऊरु इति अत्युत्तमम् इति इदानीं तत्र अक् अनेन नकारः अपि च ककारयोः ग्रहणं न भवति केवलम् अ इ ऊरु इति पञ्च स्वराणामेव ग्रहणं भवति आ, अग्रे इदानीं अस्तु लक्ष्मीभगिनी भवती पठति वा अग्रे द्वितीयबिन्दुः आदिमः वर्णो नाम सूत्रेषु आद्यः वर्णः इति नार्थः किन्तु अस्माभिः आदिमत्वेन विवक्षितः वर्णः इत्यर्थः इत्युक्ते अत्र माहेश्वरसूत्रेषु प्रत्याहाराः सन्ति प्रत्येकस्मिन् प्रत्याहारे केचन वर्णाः सन्ति अन्तिमवर्णः व्यञ्जनं तस्य ग्रहणं न भवति इति वयं जानीमः परन्तु अत्र अन्यमुख्यबिन्दुः अस्ति आदिमवर्णः सूत्रेषु आदिमवर्णः इत्युक्ते केवलं प्रथमवर्णः इति न अर्थः अत्र एकं पदं दत्तमस्ति विवक्षितः वर्णः इत्युक्ते विवक्षितः इत्युक्ते विवक्ष इत्युक्ते इच्छा इत्युक्ते अस्माकं विवक्षानुसारं यत् वक्तुमिच्छामः तदेव स वर्णात् आरभ्य वयं नूतनं प्रत्याहारं रचयितुं शक्नुमः इत्युक्ते अत्र इक् प्रत्याहारं स्वीकुर्मः चेत् इकारः अण्सूत्र प्रथमसूत्रे प्रथमवर्णः नास्ति द्वितीयवर्णः परन्तु अस्माकं विवक्षानुसारम् इक् प्रत्याहारम् अपि निर्मातुं शक्नुमः hmm. बहु सम्यक् भगिनि इत्युक्ते अत्र इदानीं पश्यतु यदा वयं अण् इति अथवा अक् इति यद्वयं दृष्टवन्तः तत्र अकारः सूत्रे सूत्रे प्रथमवर्णः आसीत् इत्युक्ते आद्यः वर्णः इत्युक्ते प्रथमवर्णः इति आसीत् परन्तु इक् इति वदामः तत्र इ इति सूत्रे प्रथमवर्णः नास्ति यद्यपि इ इति प्रथमवर्णः नास्ति तथापि इक् इक् इति प्रत्याहारः अपि वक्तुं शक्नुमः यतोहि इ इत्येव अस्माकम् ई उरूल् इत्येव अस्माकम् इदानीं वक्तुम् इच्छा अस्ति इति कृत्वा ई इति एव प्रथमं वक्तुं मम इच्छा अस्ति विवक्षिता इत्युक्ते वक्तुम् इच्छा इति एव करणं करोमि इति अहं चिन्तयित्वा इक् वदामः चेत् तदपि सम्यक् इत्युक्ते यः प्रथमवर्णः प्रत्याहारे अस्ति सः सूत्रे प्रथमवर्णः भवतु इति नियमः नास्ति स्पष्टं वा अस्तु तर्हि रामनाथमहोदय भवान् पठति वा अग्रे यदस्ति तत् यथा इक् यन् च इत्य, इत्यादिषु प्रत्याहारेषु इका, इकार इकार यकारचकार इत्येते वर्णाः माहेश्वरसूत्रेषु आदिमाः आदिमाः न सन्ति व्यञ्जनानि hmm. क्षम्यता महोदय तावत् पर्याप्तम् इत्युक्ते प्रत्याहारे यन् प्रत्याहारे च प्रत्याहारे प्रथमवर्णाः इकार यकार चकार परन्तु चतुर्दश सूत्रेषु ए वर्णाः आदिमवर्णः न सन्ति इदानीम् इण् इत्युक्ते किं इण् इत्यस्मिन् के के वर्णाः अन्तर्भूताः तद्वत् यण् चर् तस्य अपि किञ्चित् विवरणं करोति वा इण् इति क्षम्यताम् इण् नास्ति खलु तत्र इक् अस्ति चेत् चत्वारः वर्णाः सन्ति यण् इत्यत्र क्षम्यतां भगिनि यण् इत्यत्रकार एव तर्हि अस्ति न यण् इत्यत्र यवरळ अस्ति सत्यं यवरळ अस्ति चर् इत्यत्र चर् इत्यत्र च ट क फ इति वर्गेषु वर्गीयव्यञ्जनेषु प्रथमवर्णः तदनन्तरं श इति अन्तर्भूताः अस्ति एकः क्लेशः हा, हा. एक एक वदतु <laughs> महोदय <laughs> इन् इति प्रचारं नास्ति वा किमर्थम् इन् इत्युक्ते न अवगच्छामिकः इक् इति प्रचारमस्ति मध्ये अपि स्टार्टिङ्ग् डोक्टर् शेधर् यावत्पर्यन्तम् आङ्ग्लभाषा मास्तु प्रचारमस्ति किमर्थं नास्ति इति किमर्थम् इन् इति वक्तुम् आवश्यकं चेत् इन् इति अपि वक्तुं शक्नुमः खलु इ आरभ्य किमपि वर्ण आरभ्य आरभ्य चतुर्दशसूत्रेषु किमपि सूत्रेषु अन्तिमवर्णपर्यन्तं प्रत्याहारं वा हा अनुमितिः अस्ति परन्तु तत्र पाणिनिना उपयुक्तम् इति तत्र केचन प्रसिद्धानि प्रसिद्धाः प्रत्याहाराः सन्ति तदेव तत्र अपि अस्ति अण् किण् ते तु किञ्चित् प्रसिद्धमस्ति इत्युक्ते अच् इत्युक्ते सर्वे स्वराः व्यञ्जनानि अल् इत्युक्ते सर्वे स्वराः सर्वे वर्णाः इति तादृशं तत्र किञ्चित् प्रसिद्धाः प्रयोगाः परन्तु इण् इत्यपि भवति एव अस्तु न महोदय अन्य कश्चन पठतु तत्र भगिनि एक एकविषयं प्रथमं पृच्छ पृच्छामि अत्र अण् अथवा इन् इन् इन् टु इर अस्ति न इन् इति उच्यते चेत् ु एव उच्यते सम्यक् प्रश्नः भगिनी साधारणतया इण् इति वदामः चेत् तत्र इ लु एव ऐ औ हय वर लन्तं इति तत्र णकारः द्विवारम् अस्ति खलु तर्हि साधारणतया इण् इति तत्र लण् पर्यन्तं गच्छति तथैव तत् स्पष्टं करणं चिन्ता नास्ति अस्तु तर्हि भवती एव अग्रे तत्र अस्तु यथा तत् सर्वे पठावः न व्यञ्जनानि प्रायः तस्मात् तत् इदानीं रामनाथमहोदयेन पठितं तस्य अग्रिमवाक्यं यथा कोगः न भगिनि तस्मात् पूर्वं व्यञ्जनानि प्रायः व्यञ्जनानि व्यञ्जनानि प्रायः स्वरैः सह उच्चार्यन्ते व्यञ्जनानि प्रायः स्वरैः सह उच्चार्यन्ते तत् यथा कयोगः आ का कयोगः आ का कयोगः ई की कयोगः ई की कयोगः उ कु कयोगः ऊ कु कयोगः ऋ कृ कयोगः ऋ कृ कयोगः ए के क योगः ऐ कै क योगः ओ को क योगः औ कौ क योगः अयोगः कोगः आयोगः विसर्गः कः एतेषां न न भगिनि एतावत्पर्यन्तं यत् एत पठितं तद्वदतु सर्वे व्यञ्जनानि स्वरैः सह उच्च उच्चार्य उच्चार्यं कर्तुं शक्नुमः शक्नुमः कर्तुं शक्नुमः इति न कुर्मः इति कुर्मः कुर्मः कुर्मः इत्युक्ते किम् इत्युक्ते व्यञ्जनानां स्वातन्त्रेण उच्चारणं नास्ति स्वरैः सह एव तस्य उच्चारणं भवति तत् यथा उदाहरणेन कयोगः व्यञ्जनं क ककारः आयाति न ककारः न न भगिनि ककारः इत्युक्ते यत् स्वरहितः अस्ति तस्य एव ककारः इति वदामः ककारः योगः अ भवति इति इदानीं तत्र ख इति यथा इदानीं क इत्यस्य उच्चारणं भवति परन्तु ख इति तत्र यत्र स्वरः नास्ति तत्र साधारणतया ककारः इति वदामः व्याकरणे तर्हि ककारः ककारेण सह अ ककारः योगः अ इति क भवति ककारः योगः तद्वत् तत्र यथा वयं यथा पूर्वं पुष्पाभगिन्या पठितं तद्वत् तत्र क की की इति कथं भवति इति वयं जानीमः इति मम स्वरः वा हरि एकवारं अस्तु अत्र ककारः योगः अ इति क भवति तर्हि व्यञ्जनस्य स्वतन्त्र स्वातन्त्र्येण उच्चारणं नास्ति इति कृत्वा स्वरेण सह उच्चारणं भवति तर्हि यथा वयं जानीमः क काकिकि कुकु इत्यादीनि तत्र इत्यादीनि तत्र रूपमायाति तेन इत्युक्ते तत्र व्यञ्जनस्य स्वरेण सह मेलनं यदा भवति तदा तादृशरूपाणि आयान्ति इति स्पष्टम् इति मन्ये अस्तु मया स्पष्टं अस्तु सम्यक् अग्रे गीताकुमार् भगिनी गीताभगिनी अस्ति खलु एतेषां क्रमेण ख खिकि कुकु क्रु क्रु खे खै खो खौ खं ख इति वाचनं लोके प्रसिद्धम् अस्ति एषा काप पङ्क्तिः पङ्क्तिः पङ्क्तिः पङ्क्तिः ओके एषा कका पङ्क्तिः इति प्रसिद्धा कका पङ्क्तिः इति प्रसिद्धा कका पङ्क्तिः इत्युक्ते मीनिङ्ग् न जानामि हा इत्युक्ते यद्वयं क का कि इति वदामः तत्र तस्य एव नामकरणं ककापङ्क्तिः इति ककापङ्क्तिः नाम करभ्य कः पर्यन्तं पङ्क्ति पङ्क्तिः लैन् लैन् हा हा, हा पङ्क्ति इत्युक्ते तथा परन्तु कखापङ्क्तिः इत्युक्ते uh, तत्र ये क्रमेण तत्र क आरभ्य कः पर्यन्तम् आगच्छति अस्तु अधोभागे श्लोकः अस्ति खलु तदपि भट्टिर्भट्टिर्नष्टो भट्टिर्नष्टोष्ठापि भारविश्वापि भारविश्वापि भारविश्चापि भार नष्टो भार भिक्षुर्नष्टो भिक्षुर्नष्टो भीमसेनोरपि भी नष्टः हम् बक्कुण्डोहम् बक्कुण्डोहम् हि राजन् बापङ्कावन्तष्टः भोजप्रबन्धः इतिबन्धः भोजप्रबन्धः इत्यत्र किञ्चित् हास्यारूपेण ए एकः श्लोकः दत्तः अत्र बुक्कुण्डः इति कश्चन कविः अस्ति सः रचितवान् एतत् श्लोकम् एतं श्लोकं तत्र बुक्कुण्डः अहं मम नाम अस्ति बुक्कुण्डः अहं भूपतिः त्वं भूपतिः नाम राजा इति खलु नृपः नृपः राजा इति तं प्रति वदति सः इदानीं कथा अस्ति यत् तत्र बुक्कुण्डः नाम कश्चन कविः आसी तस्य राजा उक्तवान अहं त्वं मारयामि इति इत्युक्ते तस्य मरणदण्डनः भवतु इति mm. मरणदण्डन भवतु इति तर्हि इदानीं तत्र भुक्कुण्डः इति कविः वदति भवान् मां मारयितुं शक्नोति परन्तु भवतः अपि मरणं भवति इति केन कथं तद्वदति भूपतिः त्वं mm -hmm. भवान् अस्ति भूपतिः राजा mm -hmm. हे राजन् राजन् इत्युक्ते सम्बोधन खलु राजन् भवान् mm -hmm. भूपतिः अस्ति mm -hmm. बबापङ्क्तौ इति बबा पङ्क्तौ अन्तकः सन्निविष्टः इति बबा पङ्क्तौ इत्युक्ते बभा इदानीं वयं दृष्टवन्तः खलु ककापङ्क्तिः नाम किं कका कि इति तद्वत् बबा पङ्क्तिः इत्युक्ते बबा बिबि बुबु इति खलु इदानीं पश्यतु भट्टिः इति कश्चन आसीत् तस्य मरणम् अभवत् बारविः अपि गतः नष्टः इत्युक्ते गतः तस्यापि मरणम् अभवत् भिक्षुः अपि नष्टः तस्यापि मरणमभवत् भीमसेनस्यापि अभवत् इदानीं मम भुक्कुण्डः मम अहमस्मि अनन्तरं भवतः क्रमः आगच्छति भूपतिः इति तत्र भू अनन्तरं भू अस्ति खलु तर्हि भूपतिः भवतः क्रमः भवति अन्तकः इत्युक्ते कालः इत्युक्ते यमधर्मः सः भवतः हा क्रमः अस्ति तस्य आगमन आगमन तस्य आगमनं भवति भवतः समीपे इति तत्र हास्यरूपेण तत्र कविः वदति यदा कविः mm. तथा वदति तदा कथा अस्ति तत्र राजा तदनन्तरं तस्य मारणं न मरणस्य मारणं न कृतवान् इति <laughs> अस्तु <laughs> किञ्चित् श्लोकः अस्तु तर्हि अस्माकं विषयः धन्यवादः धन्यवादः <laughs> भगिनी अस्तु इदानीं तत्र पङ्क् ककापङ्क्तिः अथवा बबापङ्क्तिः इत्युक्ते किम् इति अवगतवन्तः खलु एतावत्पर्यन्तं प्रश्नः अस्ति वा भगिनी भागिन, वदतु भगिनि अत्र प्रथमसूत्रमस्ति आयुगुण् अपि च षष्ठसूत्रे अपि हकारः अस्ति तत्र द्विवारं त ता, तथा अस्ति अपि च हकारः अस्ति हकारः अपि द्विपा द्विवारम् आगच्छति पञ्चमसूत्रे अपि चतुर्थमसूत्रे अपि चतुर्दशसूत्रे हा चतुर्दशसूत्रे अपि हा हा हा तत्र वस्तुतः अण् इति वदामः चेत् ऐ ऊ इत्येव भवति परन्तु इन् इति वदामः चेत् द्वितीयणकारेण सह तस्य संयोजनं भवति तर्हि ई ऊर् ल् ए इति भवति तद्वत् हकारः अपि द्विवारम् अस्ति परन्तु साधारणतया हल् इति वदामः चेत् हयवरट् इति यत्र अस्ति तस्मात् आरभ्य एव तत्र अन्त अंत, हल, अंत अन्ते यः हल् अस्ति तस्य गणनं तथा न भवति हल् इति कथनेन सर्वाणि व्यञ्जनानि इति एव वदामः साधारणतया तत्र पाणिनिना तत्र हकारः द्विवारम् उक्तः यतोहि तेन किञ्चित् सौलभ्यम् अस्ति यदा कदापि तत्र ह इत्यस्य गणनं हयवरट् इत्येषां सः परन्तु अन्यत्र तादृशं नास्ति इति कृत्वा तस्य प्रयोगः द्विवारं कृतः अत्रविः इति कविः कवेः नाम कृष्णकविः भट्टि इति न जानामि प्रायः तद्वत् तदेव चिन्तितवती अहं कृप अस्तु उत्तमं धन्यवादः अस्तु तर्हि इदानीं अग्रे सरेम अनाभगिनी भवती पठति वा संयुक्ताक्षरम् इत्यस्मात् अस्तु संयुक्ताक्षरम् द्रे इच्छेते व्यञ्जने संयुक्ताक्षरं हरि ओं भगिनी अस्ति वा आम् अस्मि इत्युक्ते अत्र पश्यतु द दकारः अनन्तरं रेपः इति व्यञ्जनद्वयमस्ति खलु तत्र द्र इति यदा वदामः तत् तयोः मध्ये स्वरः नास्ति केवलं दकारः अनन्तरं रेपः अस्ति तद्वत् यत्र द्वयोः व्यञ्जनयोः मेलनमस्ति मध्ये यत्र स्वरः नास्ति तत् संयुक्ताक्षरम् इति उच्यते यथा दृ तत्र स्वतन्त्र इत्यत्र स्व न त्र इति तत्र तत्रापि तथा अस्ति खलु अकाररेपयोः mm -hmm. मेलनं त्र इति तदनन्तरम् अकारः त्र mm -hmm. इति तादृशः mm -hmm. प्रयोगः तादृशं स्वरं क्षम्यताम् अक्षरं संयुक्ताक्षरम् mm -hmm. इति उच्यते यत्र द्वयोः व्यञ्जनयोः मेलनं मध्ये स्वरः नास्ति अस्तु mm -hmm. mm -hmm. mm -hmm. uh -huh. अग्रिमपथमे स्वरव्यां जनयोः सन्निधौ यदा विकारः भवति तदा सन्धिः इति उच्यते विकारः नाम कस्यचित् वर्णस्य अदर्शनं कस्यचित् अन्यस्य वर्णस्य प्रयोगः वा अस्तु व्यञ्जनयोः नाम किं सन्निधिः इत्युक्ते सामीप्यं यदा अतीवसामीप्यं तयोः मेलनं यदा भवति तादृशमेलनस्य समये यदा विकारः भवति चेत् विकारः नाम परिवर्तनम् यदा परिवर्तनं भवति चेत् तदा सन्धिः इति वदामः यदा स्वर स्वरयोः मध्ये अथवा व्यञ्जनयोः मध्ये अथवा स्वरव्यञ्जनयोः मध्ये यदा तत्र यदा कदापि कथमपि भवितुमर्हति तत्र स्वराणामपि मे स्वरयोः मेलनम् अथवा व्यञ्जनयोः मेलनम् अथवा स्वरव्यञ्जनयोः मेलनम् इति त्रिधा अपि भवितुम् अर्हति यथा तदा एदा विकारः भवति इत्युक्ते तत्र परिवर्तनं भवति तदा सन्धिः इति वदामः अस्तु तत्र विकारः इत्युक्ते किम् इति अग्रे अस्ति परिवर्तनम् इत्युक्ते कस्यचित् वर्णस्य अदर्शनं भवति यथा स कस्यचित् वर्णः अपगच्छति अथवा नूतनवर्णः आगच्छति इति तादृश तादृशं किमपि परिवर्तनं भवति चेत् तत्र सन्धिः इति उच्यते अवगच्छामि उत्तमं तर्हि अग्रे धर्मेन्द्रमहोदय भवान् भवान वा एकः प्रश् एकः प्रश्नः तत्र द्वितीय वाक्ये अन्तिमे वा इति प्रयोगं प्रयोगं कृतवन्तः वा इत्युक्ते किं महोदय वा इत्युक्ते विकल्पः इत्युक्ते अदर्शनमपि यदा कदापि अदर्शनं भवति यदा कदापि अन्यप्र अन्यवर्णस्य प्रयोगः भवति इति वा शब्दं प्रश्न प्रश्नं कर्तुं समये कुर्मः खलु तत् भवति एतदपि भवति हा अथवा इति अर्थे सत्यम् अस्माकं यथा विनद्ययोग उच्चैः विनद्योच्चैः अत्र आ उ इत्येतयोः वर्णयोः सन्निधयोः सति तयोः स्थाने ओकारः सम्पन्नः अटे पठन् अन्यं च विकारः च अयं च विकारः अतः एषः सन्धिः तावत्पर्यन्तं न न तावत्पर्यन्तम् अत्र यथाः उच्चैः क्षम्यता महोदय तत्र किञ्चित् अवधानं विनद्यः इति नास्ति खलु विनद्य इति अस्ति तत्र विसर्गः नास्ति विनद्योग उच्चैः तत्र प्रथम पदेद्य न्य इति नास्ति वस्तुतः तत्र अन्तिमवर्णः कः विनद्य इति अत्र य न य अनन्तर य यकारः अनन्तरं कश्चन वर्णः अस्ति खलु न यकारस्य अनन्तरम् अकारः अस्ति खलु येन वयं य इति वदामः न तु विनद्य विनद्य इति एव वक्तुं शक्नुमः विनद्य इति न भवति तर्हि अन्तिमवर्णः अस्ति अकारः मनसि सर्वे मनस् तद् मनसि स्थापयन्तु तत्र वस्तुतः वयं य इति चिन्तयामः अन्तिमवर्णः इति परन्तु तथा नास्ति वस्तुतः अत्र अन्तिमवर्णः अस्ति अकारः विनद्य इत्यत्र ययोगः अ एव य भवति यकारयोगः अकारः एव य भवति तर्हि अन्तिमवर्णः अस्ति अकारः तदर्थमेव पूर्वस्मिन् पुटे वयं दृष्टवन्तः व्यञ्जनानां तत्र पङ्क्तिः इति तत्र य, य, य नाम यकारयोग अकारः तर्हि अन्तिमवर्णः अस्ति अकारः इदानीम् अकार उकारयोः मेलनं खलु hmm? तेन किं भवति इति वर्णः आगत इदानीम् अत्र विनद्योच्चैः इत्यत्र विनद्य यकारस्य अनन्तरम् ओकारः अस्ति अनन्तरम् च ऐ इति थि, अस्ति इत्युक्ते तत्र अकारः अपि नास्ति उकारः अपि नास्ति परन्तु द्वयोः स्थानयोः अत्र ओकारः इति आग आगतः तर्हि अत्र विकारः इत्युक्ते परिवर्तनम् अस्ति वा इति तदेव सन्धिः इति उच्यते अस्तु आ, अग्रे मेहुल् महोदय तत् सः परिच्छेदः समाप्यते आम् महोदय अयञ्च विकारः ए अतः एषः सन्धिः किन्तु किं योगः अकुर्वत् किमकुर्वत अत्र मकार अ इति वर्णयोः सन्निधौ सत्यपि कोऽपि विकारः न सम्पन्नः केवलं मकारः योगः अ इत्यनयोः स्थाने म इति लिखितम् अतः एषः न सन्धिः अत्र uh, विनद्युच्चैः इति उदाहरणे अ उ इत्ययोः वर्णयोः स्थाने ओकारः सम्पन्नः अतः तत्र विकारः भवति अतः सन्धिः भवति परन्तु किमकुर्वत् इति पद पद्यस्य पदे किं योगः अकुर्वत् इति द्वयोः पद पदयोः मेलनेन किमकुर्वत् इति भवति तत्र किम् इति पदे प्रथमपदस्य अन्तिमवर्णः मकारः अस्ति अनन्तरम् अकुर्वत इति पदस्य प्रथमवर्णः अकार अस्ति तत्र कोऽपि विकारः न भवति केवलं मकार अनन्तरम् अ इति द्वयोः वर्णयोः स्थाने म इति आगच्छति अतः तत्र सन्धि न भवति किं किमर्थमित्युक्ते तत्र कोऽपि विकारः न केवलं अतः किमकुर्वोदय इति सन्धिः नाम किम् इति वयं दृष्टवन्तः इत्युक्ते सन्धिः इति यत्र विकारः अस्ति तत्र विकारस्य चातुर्विध्यम् अस्ति वस्तुतः अग्रे आगच्छति आदेशः आगमः लोपः प्रकृतिभावः इति तदग्रिमकक्षायां पश्येम परन्तु यत्र विकारः अस्ति तत्र सन्धिः अस्ति यत्र तादृशविकारः नास्ति केवलं वर्णमेलनम् तत्र सन्धिः नास्ति इति वयं ज्ञातुं शक्नुमः सम्यक् okay. एतावत्पर्यन्तं प्रश्नः अस्ति नो चेत् अद्य अत्र अस्तु तर्हि धन्यवादः सर्वेषां शुभदिनं शुभरात्रिः धन्यवादः धन्यवादः नमस्कारः